अथ द्वितीयकाण्डे तृतीयः प्रश्नः प्रारम्भः आदित्येभ्य भवद्दभ्यश्चरण्र्ववेद्भो जगाम आदित्या वायेतम् भोजन्देयालम्भोतम्भोत् प्नोत्यादित्यानेव भवत्त्वदस्वेन भागधे येनोपधावति त एवैनं भोदिङ्गमयन्ति भवत्येवादित्येभ्यो धारय त्वद्भ्यश्चरण्यर्वभेदपरुत्वरुध्यमानो वादित्या वा अपरोद्धार आदित्या अवगमयितार आदित्यानेव धारयत्वदस्वेन भागधे येनोपधावति त एव यस्वेत्य वर्ध्यमानास्य अधितिमै राज्यमनुमन्यते सत्याशीर्त्या सत्यामेवादिशङ्कुरुत इहमन इत्या प्रजा एवस्मै समनतः करोत् शुभप्रेतमनुरत सुदा न वेना विश्वतिनाभ्यमगोराजानमित्यामारते ज्येष्ठो विश्वष्ट्रेण समर्थये देहपरस्ता स्य गृहात्रिहीना हरे शुक्लास्य कृष्णास्य विजमुद्य शुक्लामादित्यञ्जलं निर्ववेदादित्या देवतयावगच्छत्यवगतास्य विष्णास्य स्तम्भाषं जराष्ट्रंजावगच्छति यदिनाभत्ये ्यामुष्मादनुष्यै विशोभगन्धोरितत्वभेदादित्या एव विषमवगमयन्ति यदिनावगच्छेदाश्वत्थान्मयो सप्तमध्यमेशायामवहन्यादितमहमादित्याम्बध्मान्यामुष्मादमुष्यै विशोभगन्धोरित्यादित्या एवं मध्यमेराविषमवगमयन्ति यदिनावगच्छेदेतमेवादित्यं जरन् ह्येतनवरुद्यमेवावगच्छत्याश्वत्था भवन्ति मरुताम्बा एतरोद्धोजैव विषमवगच्छति सप्त भवन्ति देवा वै मृत्योरविभयस्ते प्रजापतिमुपाधा वन्देभ्य एतां राजाभत्यागो शतकृष्णलान्यरवभत्तयैवेश्वमृतमदधात्यो मृत्यो तस्मा एतां राजाभत्या शतकृष्णलान्यर्ववेत् प्रजापतिमेव स्वेन भागे येनोपदापति सैवास्मिन्नायदाति सर्वमायुरेन्द्रिय आयुष्येवेन्द्रिये कृत तिष्ठति कृते भवत्यामृतञ्च समीचीतान्यवर्जैव्यरोच तस्मै देवा प्रायश्चित्यमयै छन्दस्मा एतकम् सौर्यन्ते स्यात् नित्यस्मिन् ब्रह्मवत्य सन्दधाति ब्रह्मवत्यस्येव भवत्युभयतो रुक्मो भवत्युभयदेवस्मिन् चन्दधाति प्रयाजय प्रयाजे कृष्णरञ्जो दिज्ञवास्मि ब्रह्मवत्य समवृन्धवेत्रन्दामये जिरण्यं विन्दे हिरण्यं नोपमेतियो भवत्यां यस्यै वै हिरण्यन्द्येनैवेन द्विन्दते पितोभवति सितप्रसोदेवेन द्विन्दते भोम्यै शुर्भवत्यस्यामेवेन द्विन्देन गो हिरण्यं नव देवादेशन्द्रियेण वीर्येण ध्व्यते ैरण्यं एतामेव निर्ववेदन्यं वित एतामेव निर्ववेद्यस्येत्यं वैरण्यस्यैवैरण्यन्देनैवेन द्विन्दति सा मित्रो भवेन भूम्यैत्यस्यां वा वेदन्यस्य त्रियन्नस्य तस्यामेवेन द्विन्दतेन्द्री इन्द्रियेण सोमवेधेन प्रजापदि तस्मा एतगो समेन्द्रकृश्या माघं चरण्यवेनैवास्मिन् गोमवेदमयेण समवेदेन स्यात्तस्मा एत गोमेन्द्रकृश्या माघं चरण्येत् स्वामं जीवेन्द्र रुन्ध्यस्वेन भागधे येनतास्मिन् दत्वानेन्द्रियेवावरुन्धेन्द्र भवतीन्द्रियं वै सामीय वेथमवृन्धे श्यामाको भवत्येषादेव ग्निरेवास्मित्यं भवति प्रायाभृत्यामि पशव प्रजापतिरेवास्मि पशून् प्रजनयत्यात्मा वि पुरुषस्य मधुत्मो जुहोत्यात्मानमेव अङ्क्यो यात्यानुवाक्ये भवतःपाङ्गः पुरुषस्पाङ्गा पशुव आत्मानमेव मृत्युनिष्क्रियपशोनवृन्धे वै सत्रमासर्थ्यपरितम्भ्रष्टो तस्मा एतामिष्टन्येयमष्टाकपालमैन्द्रमेकादश सौम्यन्द्रन्दयैवा स्कन्देन इन्द्रियम् ब्रह्मवर्जसमधत्ताङ्गो यज्ञभ्रष्टश्च ष्टाकपालभेन्द्रमेकादश कपालो सौम्येन्द्रिला ज्ञेय भवति तेज एवास्मिन्देन दधाति हृदीन्द्र भवतीन्द्रियमेवास्मिन्देन सौम्य ब्रह्मस्य सौम्यस्य धीन्द्रे समाश्रे तेजस्यैवास्मिन् ब्रह्मीयमेकादश कपालभेद्यङ्गाभो ज्ञेयभिप्राणां स्वामेव देव साघस्वेन भाविोपधावतिकामानवत्यग्नियमष्टाकपालं नृपवे ब्रह्मवत्येव स्वेन भागे ब्रह्मवत्यसंधत्वा ब्रह्मवत्यस्यैव भवति भागस्तेन सौम्ये सोमाय वा एतस्माद्वाजिनोक्राम्याग्रेन भागधे येनोपधाम एवास्मिन्लीबो भवति ब्राह्मणस्पत्यमेकादशकपालभे ग्रामकामो ब्रह्मणस्फलिमेव स्वेन भागधे येनोपधामस्मिन् प्रयच्छति ग्राम्येव भवति गणवतीयाज्ञानवाक्ये ेव निर्वभेद्यः कामयेन ब्रह्मण विषम् विनाशयमिति भारतीयाच्यानुवाक्ये कुर्यात् ब्रह्मण्येव विषम् विनाशयति र्यम्णे चरन्निर्भवेत् स्वर्गकामोऽसौ वा आदित्योर्यमार्यवणमेव स्वेन भागधे येनोपधाव स एवं लोकङ्गमयत्यर्युम्णे चरन्निर्भवेत्यक्कामये ददानकामा मे प्रजास्मित्यसौ वा आदित्योर्यमायः खल्वेददासोर्यमार्यवणमेव स्वेन भागधे येनोपधाति स एवास्मिदानकामा प्रजा निदानकामास्मि प्रजा भवन्तिर्यम्णे जरन्निर्भवेत् यत्र एतमेन्द्रमान् शोकमेकादशगमारण्डरमभक्तेनैवै नमग्रं देवतानां अग्रवदीयानुवाक्ये अकरोत् वृद्धा देवै नमग्रं वर्यो राजन्य एतमैन्द्रमान् शोकमेकादश निर्ववेदीन्द्रमेव स्वेन भागधे येनोपधावस एवस्मा एतं निर्ववे बृहस्पतिमेव स्वेन भागधे येनोपधावस एवमक्रमान बुद्धवती अग्रवतीयास्यानुवाक्ये भवतो बुद्धना देवैनम् परिणयत्यानुशोका भवत्यै वाक्येन जापथे स्त्रियस्त्रिगुणन्दासो माय राज्ञै दधात्तासा गुरुहिणे मुभैतायिष्यन्दे पुनरगच्छन्दान्मेता पुनरयाचनयिष्याम्यमी रस हृमास्वे पुनर्दा तासागुरोहिणीमेवो भैत्रैक्ष्माक्षत्राक्ष्म्राजक्ष्म त्यञ्जरन्निर्वन्ते नैवैनं तस्यात्तस्मा एतमादित्यञ्जरन्निर्वपेदादित्यानेवैनं स्यायायमानमन्वाप्याय यो नवो भवयमानयु पुरानभाग्यापत्यावास्मिन् दयायन्ति याजीवेन मेदयाप्याय ेवेभ्योन्नाद्यमान् लोभ्यतिरिच्याभ्यत्यरिच्यतेन्द्रगोराजानवीन्द्रमीराजेन्द्रवाजानन्त राज्य पुरोडाशमेकादशेन्द्रा इन्द्रो राजा इन्द्रोदिराजो ृत्ताङ्गान्वेमान् वृत्तान्नात्पाद्रये लोकानामाप्त्तरवत्तरोध्यायामेव बटकानम मित्या समन्दा भारित्ता हाया देवानसुरा के देवासुरायन्देभ्येन्द्रियम् प्रजापदमपावेदयः सर्वपृष्ठया यादेवास्मिन्द्रियम् वीर्यमदधात्येन्द्रियकामो वीर्यकामस्यापृष्ठया यादय ेनोधावता देवास्मिन् इन्द्राय राजन्द्राय नृपति देवाग्ने न इन्द्रायकारय देवेन्द्रस्थिते यस्य देवावृन्दे इन्द्राय वै गोपाय देवसमिदस्य जष्टदेवावृन्दे इन्द्राय वै राजाय देवधातुस्ते जष्टदेवावरुन्धे इन्द्रायषाक् पराय देवमरुदास्ते रस्तवावरुन्दे इन्द्राय वै रजाय देव बृहस्तदे एतावन्त्यैतेजागुंसतान्येवावरन्धवत्तानेश कमानेश्वरिष्वचया भ यत्तादशकमालप्रोढाशोधेश्वरे भक्त्वा य समन्तम्णाभत्वाैरेष्याः ैकौ नेयक्रिजानस्मा एतामिष्टालस्वष्टाकपालस्मिन् एतामिष्ठन्निर्वपे पालस्वष्टाकपालकौ शौर्यं चाकपालुष्या विप्यौर्य देवात्म्यन्ते ेन भागधे येनोस्मिन् चक्षुर्धतश्चक्षुष्मानैव भवति चक्षुषी एवास्मिन् ेच्छदेवस्मी प्रेच्छदेव तस्य ो षध्रुवो हगोस जातेषु भूयासंत्ताव सुमित्रोध्रो हगुंसजातेषु भूयासंत्ताव सुमिध्रो शुध्रवो हुंसजातेषु भूयासम्भोश्चेत्ताव सुविदाम नमस्यामनस्य देवा एष जाता कुमारामनस्तानाहङ्गामये हृदाते माङ्गामयन्ता हृदातामन आमन सकृम नमस्यामनस्य देवाया स्त्रियः समनस्ताङ्गामये हृदाता माङ्गामयन्तागो हणं वै संग्रहणं मन एव सजाताना गृह्णादि द्रवो शातेषु एतदेव एते परिधयः परिधीयन्त आमनवस्यामनस्य देव इति ये महान्तो ये क्षुल्लकाया श्रियस्ता देवा वरुन्धे मै तन्नवनीतमभवत्यद सर्पत्तत्सर्पिर भवत्य प्राणोषस्य देदत्ताङ्गयो प्राणो स्वाहेन्द्रस्य प्राणोषितस्य देददा ध्वस्य प्राणो विस्वाह निन्द्रावर्णय प्राणोषस्य देदताङ्गयो प्राणो विस्वाह विश्वेषां देवानाम् प्राणोशितस्य देदेषाम् प्राणो विस्वाहा ग्रन्था इन्द्रेण दत्ताम् प्रयता मध्वनि विष्णपर्यवश्चत्वेन त्वा स्तोमेन गायत्रस्य वृत्तन्यांशाीर्येण देवस्वासवितोत्सुजतु जीवातवेदेवनस्यायै देवास्मादिदेशम् मयच्छ विश्वे देवाजलदश्चयुष्मान् स वनस्पतिभिरायुष्मान् ते धृत्वा युषायुष्पन्दम् करोमि सोमः आयुष्मान् स भोजेविर्यज्ञ आयुष्मान् सदक्षिणाभिब्रह्मायुष्मत्सब्राह्मणैरायुष्मद्देवा आयुष्मन्दस्ते मृतेन पितर आयुष्मन्दस्ते स्वधयायुष्मन्दस्ते धृत्वायुषायुष्पन्दम् करोमि ग्निं दि वा एतस्य शरीरं गच्छति सो मकुरसो वरुण एनं वर्णपाशेन गृह्णाति सरस्वतीं वा कृष्णाविष्णो आत्मायस्य कामयेत सर्वेदाज्ञेयपालकौ सौम्यं चरं वा ऋणं दशकपालकौ सारस्वग् वैष्णवमेकादशकपालमग्ने वारुणेरेवैनं सारस्वते न वाचन्दः सर्वा देवता विष्णुर्षते जीवत्येव यन्नव मय तन्नवीत प्राणोशीत्याः देवानाम्भ्यामेवास्मि भेषन्द्रस्य प्राणोशीत्या प्राणोशैत्याः ैतेन देवानां कृतस्य कृतयोस्तो वेदेह एवास्मिन् नेतेन दधात्य आत्मानमेवास्मिन् नेतेन दधा कृतप्रजा ेन विषन्ति त्यामेवेङ्गरायुष्माजहस्तुणा ये देवै देवा आयुष्मन् हस्तदेवास्मिन्नायुर्दधति सर्वमायुरेति यज्ञपदकरुणायाश्रमनयत्सस्वान् देवतां आच्छत्सुबर्ज्यदेय जिदुत्सैदमार्णजदुष्कपालवस्य तन्नरववत्तदाहये धारणाबाजादमुच्छेदवर्णोवा एतंगृणाद्योऽश्वमृदिग्रंथादयावदोष्मं अमृतग्रंथेयात् तावदवर्णान् जदुष्कपालान् निर्ववेतकर्णमेवस्य अनधागदेय नोपधावतिसरेयैमं वर्णपाशान् मुञ्चतजदुष्कपाला भवन्तिदिदुष्खाध्यस्स्स्मृत्याये गमदरिक्त्नल्लभ ृतमयसाक्षादेवत्यर्वाश्व स्वामेवै लिङ्गलिङ्गमै दृशेन शान्तमुपतिष्ठते या वान्दावरणाय दव्या धनोऽस्त एतस्मादवक्रात्मा गृहीतस्यायां करोतन्दमेव प्रतिष्ठति पुनश्च निष्कन्दतिन्द्रावणा भष्णोस्रामस्तमामेतेना वय दैत्याः दृष्ट्या देवेन पदुषस्वास्तं वय दैत्यापजीवनी एवास्मै वर्णभाषान् मुञ्जली सप्रज्ञमन्यकाव्येन्द्रम् वा विश्वदस्परेन्द्रन्द्रः ङ्गिलः दिविरोचनान्यत्वम् ेन ब्रह्मनामावृधानोरञ्जज्ञाय चक्रुलोकम् हि भोतमधाय स्वसन्तेः गणपतिमोह वामहे कविङ्गलीनामुपमश्रवस्तमम् श्रेष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पर आनशृण्वन् नो दिभस्वीदसादनम् शैत्यलेन स विषादोत्रैर्वाजम्भरतेः श्रद्धामनाहविषा ब्रह्मणस्परिम् ौरवेणस्तूनाम् गुरुभूतो राजन् आचरन्ति ञ्जलुष्पदे स्वामस्य तामद इन्द्रश्चकारा प्रयोजिज्ञे अस्य विश्वादि देवो जनिमा विभक्तिजातोर्थनादाष्टाभ्यग्रम् बृहस्पतिर्देवदायिसंवाद्योग्रमभ्यत्यो दशाहस्पतिमा विवासन्ति देवाः ंडे तृतीय पश्च